नारदपुराणम् उत्तरार्थम् अध्यायम् वन् पाण्डुवो जलदश्यामः शार्ङ्गज्याकादकर्कशाः त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः सुरा सुरशिरोरत्ननिकृष्टमणिरञ्जितम् हरिपादाम्बुजद्वन्द्वमभीष्टप्रथमस्तु मा नः मान्धादोवाच पापेम् धनस्य घोरस्य शुष्कार्द्रस्य द्विजोत्तम चतुर्मुखसमुद्भव विद्यते तव विप्रेन्द्रत्रिविधस्य सुनिश्चितम् अज्ञातं पादकं शुष्कं ज्ञातं चार्द्रमुदाहृदं भाव्यं वाप्य वाप्यथवातीदं वर्तमानं वदस्वनः वह्निना केन तद्भस्म भवेदे तन्मदं मम वसिष्ठ उवाच श्रूयतां नृपशार्दूल येन तद्भवेद् भस्म शुष्कं तथार्द्रं च पापमस्य ह्यशेषदः अवाप्यवासरं विष्णोर्यो नरः संयतेन्द्रियः उपवासपरो भूत्वा पूजयेन्मधुसूदनम् स धात्रीस्नानसहितो रात्रौ जागरणान्विदः विशोधयदि पापानि किवो हि यथा धनं ये कादशीसमाख्येन भस्मदां व्याधिराजेन्द्र अपि जन्मशदोद्भवं ने दृशपावनं किञ्चिन्नराणाम्भूप विद्यते यादृशं पद्मनाभस्य दिनं पादकहानिदं तावत् पापानि देहेऽस्मिं स्तिष्ठन्ति मनुजाधिप यावन्नो पवसे जन्तु पद्मनाभदिनं शुभम् अश्वमेधसहस्राणि राजसूय शतानि च एकादश्युपवासस्य कलां नार्हन्दिषोडशीम् एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो एकादश्युपवासेन तत्सर्वं विलयं व्रजेद एकादशी समं किञ्चित् पापनाशं न विद्यते व्याचेनापि कृदा राजन् दर्शयदि भास्करीम् स्वर्गमोक्षप्रदाह्येषा राज्यपुत्रप्रदायिनी सुकलत्रप्रदाह्येषा शरीरारोग्यदायिनी न गङ्गा न गया भूपनकाशि न च पुष्करम् न चापि कैरवम् क्षेत्रं न रेवा न च देविका यमुना चन्द्रभागा अनायासेन राजेन्द्र प्राप्य देहरिमन्दिरम् रात्रौ जागरणकृत्वा समुपोष्य हरेर्दिनं सर्वपापविनिर्मुक्तो विष्णुलोके व्रजेन्दरः दशैव मातृके पक्षे दशराजेन्द्रपैतृके भार्याय दशपक्षे च पुरुषानुधरे तद्धा आत्मानमपि राजेन्द्र सनये न ये द्वैष्णवं पुरं चिन्तामणिसमाह्येषा अथवापि निजे समा सङ्कल्पपादपप्रख्या वेदवाक्योपमाधवा द्वादशीं ये नरा नरवरोत्तमा ते भागवो जादा नागारी कृतवाहनाः स्रघ्वेण पि द्राश्च प्रयान्ति हरिमन्दिरं यशप्रभावो हि मया द्वादश्या परिकीर्तितः पापें धनस्य घोरस्य पावपाख्यो महीपते हरेर्दिनम् सदोः पोष्यं नरैर्धर्मपरायणैः इच्छद्भिर्विपुलान्न्योगान् पुत्रपौत्रादितिस्तथा हरिदिनमिहमर्त्यो यः करोत्यादरेण नरवरसदुकुक्षिं माधुराप्नोदि नैव बहु समेदो कामद कामदो कामदकामदो वाव्रजति पदमनन्दं लोकनाथस्य विष्णोः इति श्रीबृहन्नारदीयपुराणोत्तरभागे द्वादशीमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ओम्